श्रीमद्भागवत् महापुराणं दसंस्कन्ध पञ्चाशत्तमोऽध्यायः जग्राविरथं रामो जरासन्धं महाबलं हतानेकावशिष्टाशुं सिंह शिङ्गमिवो जां पद्यमानं हता रातिं पासैर्वारुणमानुषैर्वारयामास गोविन्दस्तेन कार्य स मुक्तो लोकनाथाभ्यां वीणुतो वीरसम्मतः तपसे कृतसङ्कल्पो वारितपथिराजभि द्वाक्यैं पविद्रासपदैर्नयनैः प्राकृतैरपि स्वकर्मबन्धप्राप्तोऽयं यदुभिस्ते पराभवः अतेषु सर्वाणि केषु क्लीपो बार्हद्रथस्तदा उपेक्षितो भगवता मगधान् दुर्मनाययौ मुकुन्दोऽप्यशतबलो निष्टिणारीबलावः विकीर्यमाणकुसुमैत्रिदसैर्नुमोदितः माथुरैरुपसंगम्य विज्वलैर्मुदितात्मभिमानविजयसुतमागतवन्दिवी शङ्खदुन्दभिे दुर्भेरितुर्याणिनेकषः वेळावेणो मृतङ्गाले पुरं प्रविशति प्रभो रिक्तमार्गां हृष्टञ्जनां पातकाभिरलङ्कृतां निर्घुष्टां ब्रह्मकोशेण कौतुकाबद्धतोरणां निचीयमानो नारीभिर्माल्यदध्यक्षतां कुरै नृक्षमालशस्नेहं प्रत्युत्कलितलोचनैः आयोधनगतं चित्तं अनन्तं वीरभूषणम् यदुराजाय तत्सर्वम् आहितम् प्राति सद्प्रभु एवं सप्तदशकृत्वस्तावत्यक्षौहिणी बलः युविधेमागतो राजा यदुभि कृष्णपालितै अक्षिण्वन्तद्बलम् सर्वम् विष्णय कृष्णतेजसा हतेषु सेष्वनीकेषु त्यक्तो याद अष्टादश सङ्ग्रामे आगामिनि तदन्तरा नारदप्रेषितो वीरो यवन यद्य प्रद्यत द्रोध मथुरामेत्य तिशिभिं लेख्यकोटिभिः लोके चापति द्वन्दो विष्णे श्रुत्वाऽऽत्मसम्मितान् तं दृष्ट्वा चिन्तयन् कृष्णशङ्कर्षणसहायवान् तहो यदूनां वृजनम् प्राप्तं शोभयोऽम्भयतोमत् यवनोऽयं निरुद्धेऽस्मान्नद्य तावान्महाबलः मागदोऽप्यद्य वा शो वा परशो वा गमिष्यते आवयोर्युध्यतोरस्य यद्यागन्ताजराशुतः बन्धूना वधिष्यत्यन्त वा नेष्यते तस्माद्यभिधास्यामो दुर्गं द्विपदुर्गमं तत्र ज्ञाती न समाधाय यवनं घातयामहे एते सन्मद्रं भगवान् दुर्गं द्वादश योजनम् अन्तः समुद्रे नगरं कृष्णाद्भुतमकीं मचीकरत् दिशते यत्र हि स्वाष्ट्रं विज्ञानं शिल्पनेपुणं रब्धा चत्वरवीथिभिर्यथा वास्तु निर्मितम् सुरद्रुमतलं सुरद्रुमलं तुद्यानि विचित्रोपमं तौणान्वितं हेमसिंहैरुस्मृभ्यं सत् स्फाटिकाट्टालगोपुरैराजतारकुटैकोटैर्हेमकुम्भैरलङ्कृतैर्दनकुटैर्गृहै हेमये महामलकस्थलै वास्तुपतीनां च गृहैर्जलभिश्च निर्मितम् चातुर्वर्णजनाकिरणं यदि देव गृहोल्लसुधर्मां पारिजातं च महेन्द्रं प्रायणोद्धरे यत्र चावासितो मर्चो मर्तधर्मै न युज्यते श्यामैककर्णान् वरुणोहया शुक्लान् मनोजवान् अष्टौ निधीपति के कोशान् लोकपालो निजोदयान् यद्यद्भगवता दत्तमाधिपत्यं सुसिद्धये सर्वं प्रत्यर्पयामासुर्हरौ भूमे गतेरिप तत्र योगप्रभावेण नीत्वा सर्वजनं हरे प्रजापालेन रामेण कृष्णशमनुमन्त्रितः निर्जकामपुरद्वारा पद्मालीनरायुध ते श्रीमद्वागुते महापुराणे प्रवशां चैतायां दसं स्कन्धे पुत्रार्धे दुर्गनिवेशनं नाम पञ्चाशत्तमोऽध्यायः